श्रीहरये नमः अत एकादशोऽध्यायः श्रीशुक उवाच अतोऽसुरा प्रत्युपलब्धचेतस परस्य पुंसः परयानुकम्पया जग्रणाधयः तां स्थानरणे यैरभिसंहताः पुराः वैरोचनाय संरब्धो भगवान् पाकसानः उदयच्छत्यधा वज्रं प्रजाहाखेतिचुक्रशुको वज्रपाणिस्तमो हेदं तिरस्कृत्य सुसम्पन्नं विचरन्तं महामृधे नटवन्मोढमायाभिर्मायोऽसानो जित्वा भलान् निन्नटो हरति तद्धनम् आरुरुषन्ति मायाभिः उत् उत्सिप्सन्ति यज्ञान् पूर्वस्मा च सोऽहं दुर्मायिनस्तेद्यवज्रेण सतपर्वणां शिरो हरिष्ये मन्दात्मन्घटस्वज्ञादिभिस्सह बलिरुवाचा सङ्ग्रामे वर्तमानानां कालचोदितकर्मणां कीर्तिर्जयो जयो मृत्युः सर्वेषां स्युरनुक्रमान् तदिदं कालरसनं जनाः पश्यन्ति सूरयः न हृष्यन् न शोषन्ति तत्र यूयम् अभण्डिताः न वयम् अन्यमानानाम् तत्र साधनं गिरोभः गृह्णीमो मर्मता ढनाः श्रीशुक उवाच इत्याक्षिप्य विभुं वीरो नारचैर्वीरमर्दनः आकर्णपूर्णयहनत् आक्षेपै आगतं पुनः एवं निराकृतो देवो वैरिणा तत्यवादिना नामृष्यत्ततधिक्षेभं तोत्रागतयिव द्विपः प्राहरत्कुलिशन्तः स्मा अमोघं परमर्दनः सयानो न्यपतत् भूमौ चिन्नपक्षयि वा चलः स पतितं दृष्ट्वो जम्बो बलिसख सुहृत् अभ्ययात् सौहृदं सख्योर्ह तस्यापि समाचरन्न सिह्मवाह आसाद्य गताबुद्धं यरम्ह स जत्रावताढयश्चक्रं गजं गताप्रकारव्यतितो भृशं वलितो गजः जानूभ्यां धरणिं स्पृष्ट्वा कस्मलं परमं ययो ततो रथो मादलिना हरिभिर्दश शतैर्व्रतः आनीतो द्विपमुद्रुज रतमारुरुहे विभुः तस्य तत् पूजयन् कर्म यन्तुर्धानवसत्तमः शूलेन ज्वलता तं तु स्वयमानोहनं मृधे ेरुजं सुर्मर्षां सत्त्वमालम्भ्य मातलिः इन्द्रो जम्बस्य सङ्क्रुद्धो वज्रेणापाहरत् शिरः जम्पं श्रुत्वा गतं तस्य ज्ञातयो नारधातृषेः नमोश्चिश्च भलपाघस्तत्रापेतुस्त्वरान्विताः वचोभिपुषैरिन्द्रमर्दयन्तोऽस्य मर्मसु सरैरवाकिरन्मेघाधाराभिरिवपर्वतं हरीं दशशतान्योजौ हर्यस्वस्य भलः तावद्भि अर्धयामस युगपल्लगुहस्तवान् सदाभ्यामातलिम् पो सवायवं प्रदत् सकृत्सम्नमोक्षेण तदद्भुतं मभूतृणे न मुचि पञ्च सर्वतःकूटेन शक्रं सरथसारथिं साधयामासुरासुराः प्रावृत्सूर्यमिव अम्बुधाः अलक्षयन्तस्तमतीव विक्वला विशुकृशुर्देवगणासखानुगाः अनायगा शत्रुबलेन निर्जिता वणिक्पथा भिन्न नभोयतार्णवे ततस्तुराषाढिशुभत्तनिर्गतशाश्वरध्वजाग्रणीहे बभौ दिसकं पृथिवीं च रोचयन् स्वतेजसा सूर्य इवशापत्यये निरीक्षपृतनां देव परैप्यर्दिनां रणे उदयश्चत्रुभ्यं हन्तुं वज्रं वज्रधरोरुषा स तेनैव अष्टधारेण शिरसीभलपाकयोः ज्ञातीनां पश्यतां राजन् चकार जनयन् भयं न मुच्चिस्तद्वथं दृष्ट्वा शोकामर्षरुषान्वितः जिघां सुरेन्द्रं रपते चकार परमोद्यमम् अस्मसारमयशूलं घण्टावत् हेमभूषणं प्रगृह्याभ्यत् द्रवत् ग्रत्तो हतोऽसीति वितर्जयन् प्रागिणो देव राजा निनधन् मृगराडिव तथापतत् गगनकले महाजपम् विचिचिदे हरिषुभिः सहस्रधा माकनन्दृभकुलिशिने गन्धरे वृषान्वितस्त्रिधसपतिः शिरोहरन् न तस्य हि त्वशमपि तदद्भुतं परमतिवीर्यवृद्रभे तिरस्कृतो न मुचिः तस्मादिदन्त्रो बि बिबे चत्रोर्वज्र प्रति हतो यतः किमितं दैवयोगेन भूतं लोकविमोहनं येनमे मे पूर्वमद्रीणा पक्षश्चेतप्रजात्यये कृतो निविसताम् निविशताम्भारैपतत्रैपतताम्भुवि तपः शारमयं द्वाष्ट्रं वृत्रो येन विपाटितः अन्ये चाविबलोपेता सर्वशास्त्रै अक्षतत्वचः सोयं प्रतिहतो वज्रो मया ो सुरेऽल्पके नाकं दधा ददे दण्डं भ्रमते जोप्यकारणम् इति शक्रं विषीधन्तमाघवाकशरीरिणि नायं शुष्कै अथो नार्द्रैर्वधमर्हति दानवः मया उपायो मघवन् भोः तां दैवीं गिरमाकर्ण्य मघवान् सुसमाहितः ध्यायन्फेनं मता पश्यत् उपायमुभयात्मकम् न शुष्केन न जहारनमुचे शिरः तं तुष्टुवुर्मुनिगणामाल्यैश्चावाकिरन् विभुम् गन्धर्वमुख्यौ जगतुर्विश्वावसु परा वसु देवदुन्दुभयोनिधुर्नर्तक्यो नन् ऋतुर्मुधा अन्येऽप्येवं प्रदिध्वन्द्वान् वाय्वग्निवरुणादयः सूदयामासो अस्त्रौ घैर्मृगान् के शरिणो यथा ब्रह्मणा प्रेषितो देवान् देवर्षिर्नारथो नृप वारायमासविभुतान् दृष्ट्वा धानवसंशयम् नारदौ उवाच भवद्भिः अमृतं प्राप्तं नारायणभुजाश्रयैः श्रिया समेदिता सर्ववपारमतविग्रहात् श्रीसुख उवाच संयमयमन्युसम्रम्भम् आनयन्तो मुनेर्वचः उभगीयमानानुचरैर्ययुः सर्वे त्रिविष्टपम् सिणे तस्मिन्ना ना बलि विपन्न आधार अस्त गिरीपगम त्रा विन वयवान् विद्यम शिरोधरान्सना जीवयामासीवस्विद बलिश्चोषनशास्पृष्टप्रत्यापन्नेद्रियस्मृतिः पराजितोपिनागित्यत्लोकतत्वविसेक्षणः नागित्यत् लोकतत्त्वविशेषणः इति श्रीमद्भागवते महापुराणे अष्टमस्कन्धे देवासुरसङ्ग्रामे एकादशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्दा सद्गुरुनाथ महराजकी जयम्